भागवत श्रीमदभागवत महापुराण नव स्कृतीध्याहर्षि चवन और सुकन्या का चरित्र राजा सरियाति का वंश श्रीशोकुवाच सरयानवो राज ब्रह्मीष्ठ च बभूव योवा अंगिरसाम सत्रे द्वितीय महचिवा सुकन्या नाम तस्यासीत् कन्या कमललोचनां तस्या सार्धम् वनगतो यग्मजमनाश्रमं सा सखिवि परिवृतां विचिन्वन्तघृपानवले वाल्मीकरन्ध्रे ददिशे खद्योते विज्योतिषीं ते दैव चोदिता बाला ज्योतिषी कण्टकेन वै अविध्यन्मुग्धभावेन शुश्रावसि गतो बहू सकिन्मुत्र निरोधो भूसैनिकानां च तत्क्षणात् पुरुषान् विस्मृतो ब्रवीत् अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितं व्यक्तं केनापि सुकन्याप्राहपितरं भीता किञ्चित्कृतं मया द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै दुहितस्तद्वच श्रुत्वा सर्यातिर्जातसाध्वसः मुनिं प्रसादयामास वाल्मीकान्तर्हितं शनैः तदभिप्रायमाज्ञाय प्रादाद्विहितरं मुनेः तीर्थान्मुक्तमामन्त्रपुरं प्राया समाहितः सुकन्या चवनं प्राप्य पतिं परमकोपनं प्रीणयामास चित्तज्ञाम् अप्रमत्तानुवृत्तिभिः कस्यचित्त्वद्धकालस्य नासत्या वा समागतौ तौ पूजयित्वा प्रोवाच वयो मे गृहं ग्रहिष्ये सोमस्य यज्ञे वामप्यसोमपोः एतामेव यो रूपं प्रमदानां जदीप्सितम् बाढमृत्यो चतुर्वीं प्रभुविं नन्द्य विषक्तमौ निमज्जतां भवानस्मिन् धरे सिद्धविनिर्मिते इत्युक्त्वा जलेयाग्रस्तद्देहोधमनि सन्ततः हतं प्रवेशितोभ्यां बलिपलितविप्रियः पुरुषास्त्रस्य उत्तरस्थूरपिचावनिता प्रियाः पद्मस्रजकुण्डलिनं तुल्यरूपा सुवाससः तान् निरीक्ष्य वरारोहां सरूपान् सूर्यवर्चसः अजानति पतिं साद्भिः अस्मिनौ शरणं ययौ दर्शि त्वापतिं तस्यैपातिव्रत्येन तोषितौ दृशेर्मामन्त्येतुर्विमानेन त्रिविष्टुपं यक्षमालोऽथ सर्जाति च मनस्याश्रमं गतः पुरुषं सूर्यवर्चसम् राजा दुहितरं प्राहकृतपादाभिवन्दनाम् आशिषश्चाप्रिञ्जानोन्नातिप्रीतमना इव चिकेसितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः यत्त्वं जराग्रस्तमसत्यमं सम्मतं विहाय जारं भजसे मुमध्वगं कथं मतिस्तेव गतान्यथा कुलप्रसूते कुलदूषणं त्विदम् विभर्षिजारं जलपत्रपाकुलं पितुश्च भर्तुश्च नेऽस्य एवं ब्रुवाणं पितरं स्मयमाना सुचिस्मिता उचितातजामाता तवैष भृगुनन्दनः शशंसपित्रे तत्सर्वं वयोरूपाभिलम्भनं विस्मिता परं प्रीततनयां परिसस्वदे सोमेन याजियन्वीरं गृहं सोमस्य चाग्रहीत् असोमपोरभ्यश्विनोऽस्यवनस्वेन तेजसा हन्तुं तमाददे भद्रं सद्यो मन्योरमर्षित सभद्रं शम्भयामास भुजमिन्द्रस्य भार्गवः अन्वजानस्ततः सर्वे गृहं सोमस्य चाश्विनोः हि सजावीति यत्पूर्वं सोमाहुत्या बहिष्कृतौ उत्तानबर्हिरा नर्तो भूरिषेण इति त्रय सर्यातेरभुवन्पुत्रा आनन्तादेवतोऽभवत् सोऽन्तः समुद्रे नगरीं विनिर्माय कुलस्थलिम् आस्थितो भुङ्क्तविशयानान्नर्ता दीनरिन्दम् तत्र पुत्रः सुतं यज्ञे ककुद्मी रेवतिं कन्यां शामादाय विभुं गतः कन्यावरं परिप्रष्टुं ब्रह्मलोकम् अपावृतम् अवर्तम् आवर्तमाने गान्धर्वे स्थितो लब्धक्षणक्षणम् चन तदन्त आद्यमानम्य स्वाभिप्रायं न वेदयन् तच्छ्रुत्वा भगवान् ब्रह्मा प्रहस्य संवाच अहो राजन्निरुद्धास्ते काले न श्रिये कृता तत्पुत्रपौत्र नृणां गोत्राणि च न शृण्महे कालोऽभियातस्तृणं वचतुर्यो गविकल्पकल्पित तद्गच्छदेव देवांसो बलदेवो महाबलः कन्यारत्नमिदं राजन् नररत्नाय देहि भो भो भारावताराय भगवान् भूतभावनः अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः इत्यादिष्टोऽभिवन्द्याजं नृपश्व पुनमागतः त्यक्तं पुण्यजनत्रासाध्रातृभिरदिक्ष्वम्वस्थितौह सुतां दत्त्वा नवद्याङ्गिं बलाय बलशालिने बदर्याक्षं गतो राजा तप्तुं नारायणाश्रमम् इति श्रीमद्भागवते महापुराणे पारमहंसां सहितायां नं तृतीयोऽध्यायः